सोवनिं मध्यमां भुक्त्वा मिथो भेदमन्यथा प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत् स साम्राज्यं महाराज प्राप्तो भवति यो गतः तं स राजादरासन्धं सर्वशः राजन् सेनापतिर्जातः शिशुपालः तमे महाराजा शिष्यवत्समुपस्थितः वक्रः करूषाधिपतिर्माया योधी महाबलः अपरौ च महावीर्यौ महात्मानौ समाश्रितौ जरासन्धम् महावीर्यम् तौ हं षडिम्भकाुभौ करभो मेघवाहनः मूर्ध्ना दिव्यमणिम् बिभ्रद्यमद्भुतमणिं विदुः मुरं च नरकं चैव शास्तियो यवनाधिपः अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा भगदत्तो महाराजा, वृद्धस्तव सवाचा सखा स वाचा प्रणतस्तस्य कर्मणा विशेषतः स्नेहबद्धश्च मनसा पितृवद्भक्तिमांस्त्वयि प्रतीच्यां दक्षिणं चान्तं पृथिव्याः प्रति प्रतियो नृपः मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः स ते सन्नतिमानेकः स्नेहतः शत्रुसूदनः जरासन्धं गतस्त्वेव पुरा यो न मया हतः पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः आत्मानं प्रति जानाति लोकेऽस्मिन् पुरुषोत्तमम् आदत्ते सततं मोहाद्यः सचिह्नं च मामकम् वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः पौण्ड्रको वासुदेवेती योऽसौ लोकेऽभिश्रुतः चतुर्थ भोजा भोज इन्द्र बली विद्याबलाद्यो व्यजयत् स पाण्ड्यक्रथ कैशिकान् भ्राता यस्याकृतिः शूरो राजा भीष्मकः प्रियाण्याचरतः प्रह्वान् सदा भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः न कुलं सबलं राजन्नभ्यजानात्तथात्मनः पश्यमानो यशोदीप्तं जरासन्धमुपस्थितः उदीत्याश्च तथा भोजाः कुलान्यष्टा दश प्रभो जरा सन्धभया देवा प्रतीचीं दिशमास्थिताः शूरसेना भद्रकारा बोधाश्चाल्वाः सुस्थलाश्च सुकुट्टाश्च कुलिन्दः कुन्तिभिः सह राजानः सोदर्यानुचरैः दक्षिणा ये च पूर्वाः कुन्दिषु कोशलाः तथोत्तराम् दिशं चापि सन्न्यस्तपादाश्चिणाश्रिताः तथैव सर्वपञ्चाला जरासन्धभयार्दिताः स्वराज्यम् सम्परित्यज्य विद्रुताः सर्वतो दिशम् कस्यचित्वथ कालस्य कंसो निर्मथ्य यादवान् बार्हद्रथः सुगच्छ अस्ति प्राप्तिश्च नाम्ना ना ते ना सह भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना